मद्भागवतमहापुराणम् चतुर्थे स्कन्धचतुर्विंशोऽध्यायः भवान् भक्तिमता लभ्यो दुर्लभ सर्वदेशिनां स्वाराज्यस्याभ्यम्प्यभिमत एकान्तेनात्मविद्गतिः तं दुराराध्यमाराध्य सतामपि दुरापया एकान्तभक्त्या को यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते विस्तं विध्वंसयन्विर्यशौर्यविस्फूर्जितभ्रुवा क्षणार्धेनापि तुलये न स्वर्गं न पुनर्भवं भगवत्सङ्गीसङ्गंस्य मर्त्यानां कृताशिर अथा नघाघ्रेस्तव कीर्तितीर्थयोः अन्तर्वहि स्नानविधूतपाप्नां भूते स्वनुक्रोशसुसत्त्वशीलिनां चास्रङ्गमोऽनुग्रहेश नस्तव न यस्य चित्तं बहिरर्थविभ्रमं तमो गुहायां च विशुद्धमाविशन् यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टेननु तद् ते गतिम् यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यन् तद् त्वं ब्रह्म परं ज्योति आकाशमिविसृतं व्यो मायेदं पुरुपयासि यन्ति भरति भूय शपि यद्य विक्रिय यद्धेदबुद्धि सदिवात्मदिया तमात्मतन्त्रं भगवन् प्रतीमहि क्रियाकलापैरिदमेव योगिनः श्रद्धान्वितासाधियन्ति सिद्धये भूतेन्द्रियान्तकरणोपलक्षितं देदे च तन्त्रे चत एव कोविदाः त्वमेक आद्य पुरुषशब्दशक्ति तया रजसद्गतमो विभिद्यते महानहं त्वं मरुदग्निवार्धराः त्रिरसयो भूतगुणा इदं यतः तीक्ष्णं सशक्ते दमनं नु प्रविष्टचतुर्विधं परमात्मान् सखेन अथो विदुस्तं पुरुषं सन्तमन्तं भुक्ते शिचीकैर्मधुसारगं च ताये स चन्दवेगो न चण्डवेगो विकर्षसि त्वं खलु कालयान भूतानुभूतैरनुमीयतद्वो प्रविद्धलोभं विषये त्वमप्रमद्य ससा विपद्यसे तुलेहि आलों ह्रिवाकुमन्तक कस्त्वत्पदाब्जं विजहाति पण्डितो यस्त्येव मानव्ययमानकेतनः विशङ्कया स्मदं गुरुरजितं रजति स्मयन् विनोपपत्तिं मनवश्चतुर्द अस भिस्वं रुद्रभयभयध्वस्तम् अकुतचिद्भयागतिः इदं जपद्भद्रं वो विशुद्धा नृपनन्दनाः स्वधर्ममनुतिष्ठन्तो भगवद्यर्पिताशयाः तमेवात्मानमात्मस्थं सर्वभूते स्वपस्थितं पूजयध्वं गृहन्तश्च ध्यायन्तश्चासकृधरिं योगादेशमुपासाद्य धारयन्तो मुनिव्रताः तमाहितधिय सर्व एतद्य एतदभ्य सतादिताः इदमाहपुरा अस्माकं भगवान् विश्वशिग्मतिः दिग्वादीनात्मात्मजानां शिक्षु संसिशिक्षितां ते वयं रोदिता सर्वे प्रजा सर्गे प्रचेश्वराः अनेन ध्वस्ततमशिक्मो विविधा प्रजाः नतेदं नित्यतायुक्तो जपन्नवहित पुमान् अतिराच्छ्रेय आप्नोति वासुदेव परायण श्रेशां निः सर्वेषां ज्ञानं निःशेषं परं सुखं तरद्वस्पारम् ज्ञानिनोऽव्यसनाळवम् य इमं सद्यया युक्तो मद्गीतं भगवत्समम् अथिया नो दुराराध्यम् हरिमाराधयत्यसौ निन्दते पुरुषोमुस्माद्येच्छन्त्य सत्वरम् मद्गीतगीतासूपीतासेयसामेकवल्लभा इदं य कल्य उत्थाय प्राञ्जलि श्रद्धेयान्वितः तृण्या श्राव्येन्मरतो मुच्यते कर्मबन्धने गीतं ययेदं नरदेवनन्दना परस्य पुंस परमात्मनः जपन्त एकाग्रियस्तपो महं चरणध्वमन्ते तदासिन्थेतं ते श्रीमद्भागुदे महाकुराळे प्रपञ्चां सयितायां चतुर्शस्कन्धे रुद्धगीतं नाम चतुर्विंशोऽध्याय